तच्छञ्योरावृणीमहे गातुञ्यज्ञाय गातुञ्यज्ञपतजे दैवीस्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जि गातु, गातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे शान्तिः शान्तिः शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो मृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावालस्य महिमा अतो ज्यायागिश्च पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदयित् पुरुषः पादो अस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्भिराडजायत विराजो अधिपूरुषः स जातो अत्यरिच्यत पश्चाद्भूमि मथो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मः शरद्धभिः सप्तास्यासन् परिधडः त्रिः सप्त समिधः कृताः देवागद्यज्ञम् तन्वाः अबध्मन्पुरुषम् पशुम् तै यज्ञम् बर्हि पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषजश्च जे तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् आरण्यान् ग्राम्याश्च तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरेतस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभजादतः गावोहजज्ञिरेतस्मात् तस्माता अजावजः यत्पुरुषम् व्यदधुः कति धाव्यकल्पयन् मुखम् किमस्य कौ बाहू कावूरूपादाुच्येते ब्राह्मणास्य मुखमासीत् बाहूराजन्यः कृतः पूरो तदस्य यद्वैष्यः पद्भ्यागम् शूद्र अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम्भोभिर्दिश्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णन्तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धादा पुरस्ताद्यमुदा जहार चक्रः प्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञम यजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः स यत्र पूर्वे साध्याः सन्ति देवाः अध्यः सम्भूतः पृथिम् व्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे पुरुषं महान्तं महान्तम् आदित्यवर्णन्तमसः परस्तात् विद्वान अमृत इह भवति नान्यः पन्था विद्यते जनाजा प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति भेधसः यो देवेभ्य आतपति यो, देवे यो देवानाम् पुरोहितः पूर्भो देवेभ्यो जातः नमोरुचा जब्राह्मजे रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम्ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनम् व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमा नित्यम् विश्वम् नारायणगुं हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारागणम् महाज्ञेयम् विश्वात्मानम् परागणम् नारागणपरो ज्योतिरात्मा नारागणः परः नारागणपरम् ब्रह्मतत्त्वम् नारागणः परः नारागणपरोद्ध्याताध्यानम् नारायणः परः यच्च किञ्चिज्जगत् दृश्यते एषतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारागणस्थितः अनन्तमव्ययम् कविगम् समुद्रेन्दम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगम् हृदयम् चाप्यधोमुखम् अधोनिष्ट्या वितस्त्यान्तेनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्थूलम् वत्याकोशसन्निभम् तस्यान्ते सुषिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्तिर्विश्वतो मुखः सोऽग्रभुग् विभजन् तिष्ठन्दाहारमजरः कविः तिर्यगूर्ध्वमधश्यायीरश्मयस्तस्य सन्तता सन्तापयतिस्वन्देहमापादतलमस्तकः तस्य मध्ये वह्नि नीलतो यदमध्यस्थाद् विद्युल्लेखे बभास्वरा नीवारशूकवत्तन्नि पीता भा मध्ये परमा आत्मा व्यवस्थितः स ऋतगम् सत्यं परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरे तम् विरूपाक्षं विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदजात् विष्णोर्नुकम् वीर्यानि प्रवोचञ्यः पार्थिवानि विभवे रजागुम् धिजो तरम् सधस्थम् विचक्रमाणस्त्रेधोरुगाजो विष्णो रराटमसि विष्णो आस्पृष्ठमसि विष्णोश्चप्रेये स्थो विष्णो स्यूरसि विष्णो अर्ध्रुवमसि वैष्णवमसि विष्णवे तदस्य प्रियमभि पाथो अश्याम् नरो यत्र देवजभो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णो आह्दे परमे मध्व उत्सः प्रतद्विष्णुस्तवते वीर्याज मृगो न भीमः कुचरोगिरिष्ठाः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वाः परो मात्रजातनुवावृधान न ते महित्वमन्वश्नुवन्ति उभे ते विद्वरजसि पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे एतां एताम् क्षेत्राजविष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य गीरजोजनासह उरुक्षितिगुम्सु जनिवाचकार त्रिर्देवः पृथिवीमेष एताम् विचक्रमेश चर्चसंमहित्वा प्रविष्णुरस्तु तव सस्तबीजानि त्वेष गृह्यस्य स्थविरस्य नाम अतो ओ देवा अबन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इदं विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागम् सुरे त्रीणि विचक्रमे विष्णुर्गोपा अदा आभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्य तजतो आव्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णो आ परमम् सदा पश्यन्ति सूरजः दिवि तद्विप्रा आसो विपन्यव ओजागृवाम् समिन्धते विष्णोर्यत्परमम् पदम् पर्या आप्त्या अनन्तराजाज सर्वस्तो मोतिरात्र महर्भवति सर्वस्या यै सर्वस्य जित्यै सर्वमेवतेना आप्नोति सर्वम् जयति अथ पुरुषो ह वै नारायणो कामगत प्रजासृजेजेति नारायणात् प्राणो जाजते मनः सर्वेन्द्रियाणि च खंवायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणाद्ब्रह्मा जायते नारायणाद्द्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिश्च नारायणः शक्रश्च नारायणः द्यावापृथिव्यौ च नारागणः कालश्च नारागणः दिशश्च नारागणः ऊर्ध्वश्च नारागणः अधश्च नारागणः अन्तर्बहिश्च नारागणः नारागण एवेदगम् सर्वम् यद्भूतम् यच्च निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः नद्वितीयोऽस्ति कश्चित् य एवम् वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रेप्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्च अक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् वदमध्येति अनपभ्रवः सर्वमायुरेति विन्दते प्राजापत्यगम् रागस्पोषङ्गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार मकार इति ताने कथा समभरत्तदेतदोमिति यमुक्त्वामुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मात्तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकन्नारायणम् कारणरूपमकार परब्रह्मो ये तदथर्मशिरोजोऽधीते प्रातरधीजानो रात्रिकृतम् पापन्ना यजति सा जानो दिवसकृतम् पापन्ना यजति माध्यन्दिनमादित्याभिमुखोऽधीजानः पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहना भवतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै ओम् शान्तिः शान्तिः शान्तिः योपाम् पुष्पम् वेद पुष्पवान्प्रजावान् पशुमान्भवति चन्द्रमा वा अपाम् पुष्पम् पुष्पवान्प्रजावान्पशुवान्भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान्भवति अग्निर्वा अपामायतनम् आयतनवान्भवति यो ओग्नेराजतनम् वेद आयतनवान्भवति आपो वा अग्नेराजतनम् आयतनवान्भवति य एवम् वेद यो पाभाजतनम् वेद आयतनवान्भवति वाजुर्वा अपभाजतनम् आयतनवान्भवति यो वाजोरागतनम् वेद आगतनवान्भवति आपो वै वाजोरागतनम् आयतनवान्भवति य एवम् वेद यो पामायतनम् वेद आगतनवान्भवति असौ वैतपन्नपामायतनम् आयतनवान्भवति योऽमुष्यतपत आयतनम् वेद आयतनवान्भवति आपो वा अमुष्यतपत आयतनम् आयतनवान्भवति य एवम् वेद यो पामायतनम् वेद आयतनवान्भवति चन्द्रमावा अपामायतनम् आयतनवान्भवति यश्चन्द्रमस आयतनम् वेद आयतनवान्भवति आपो वै चन्द्रमस आयतनम् आयतनवान्भवति य एवम् वेद योपामायतनम् वेद आयतनवान्भवति नक्षत्राणि वा अपामायतनम् आयतनवान्भवति यो नक्षत्राणामायतनम् वेद आयतनवान्भवति आपो वै नक्षत्राणामायतनम् आयतनवान्भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान्भवति पर्जन्यो वा अपामायतनम् आयतनवान्भवति यः पर्जन्यस्यायतनम् वेद आयतनवान्भवति पापो वै पर्जन्यस्यायतनम् आयतनवान्भवति य एवम् वेद योऽपामायतनम् वेद भवति। संवत्सरो वा अपामायतनम् भवति। यः संवत्सरस्यायतनम् वेद आयतनवान्भवति आपो वै संवत्सरस्यायतनम् आयतनवान्भवति य एवम् वेद यो ओप्सुनावम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाधिराजाजप्रसह्यसाहिने नमो भयम् वै ईश्वभणाय कुर्महे समे कामान् काम कामाय कामेश्वरो वै ईश्वणो ददातु कुबेराज वै श्रवणाय महाराजाय नमः यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॐ शान्तिः